रजताचल शृङ्गागर मध्यस्थायै नमो नमः हिमाचल महावंश पावनायै नमो नमः शृङ्गरार्धाङ्ग सौन्दर्य शरीराय नमो नमः लसन् परगत स्वच्छ विग्रहाय नमो नमः महातिशय सौन्दर्य लावण्यायै नमो नमः शशाङ्क शेखर प्राण वल्लभायै नमो नमः सदा पञ्चदशात्मैक्य नमो नमः वज्रमाणिक्य तटक किरीटायै नमो नमः कस्तूरी तिलकोद्भासि निटिलायै नमो नमः भस्मरेखाङ्गिदलसन्मस्तकायै नमो नमः लसत्कनकटकयुगलायै नमो नमः लोचनायै नमो नमः शरच्छाम्बेय पुष्पाभनासिकायै नमो नमः मणिदर्पण नमो नमः ताम्बूलपूरि दस्मेर वदनायै नमो नमः नमो नमः कम्बुपूग समच्छाय कण्ठराय नमो नमः स्थूलमुक्ता फलोदार सुहारायै नमो नमः गिरीश बद्ध माङ्गल्य माङ्गलायै नमो नमः पद्मपाशाङ्कुशल सत्कराजायै नमो नमः पद्मकैरव मन्दार सुमालिन्यै नमो नमः सुवर्ण कुम्भ युग्मा भुचायै नमो नमः रमणीय चतुर्बाहु संयुक्तायै नमो नमः कनकाङ्गदकेयूर नमो नमः बृहत्सौवर्ण नमो नमः बृहन्नितम्बविल नमो नमः सौभाग्य नमो नमः दिव्यभूषण नमो नमः पारिजात नमो नमः सुपद्मराग नमो नमः कामकोटिमहापद्मपीठस्थायै नमो नमः श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः स नमो नमः भक्तरक्षण नमो नमः भूदेशालिङ्गनोद्भूत पुलकाङ्क्यै नमो नमः अनङ्ग जनकापाङ्गीक्षणाय नमो नमः ब्रह्मोपेन्द्र शिरो रत्न रञ्जितायै नमो नमः शचीमुख्यामर नमो नमः लीला कल्पित ब्रह्माण्ड मण्डलायै नमो नमः अमृतादि महाशक्ति नमो नमः एकातपत्र साम्राज्यदायिकायै नमो नमः सनकादिसमाराध्यपादुकायै नमो नमः देवश्रीभिस्तूयमान वैभवायै नमो नमः कलशोद्भव दुर्वासपूजितायै नमो नमः मत्तेभवत्र षड्वक्त्र वत्सलायै नमो नमः चक्रराज महायन्त्र मध्यवर्त्यै नमो नमः चिदग्निकुण्डसम्भूत सुदेहायै नमो नमः शशाङ्कखण्ड संयुक्त मुकुटाय नमो नमः मत्रहंस वधू मन्द गमनायै नमो नमः वन्दारुजल सन्तोष वन्दितायै नमो नमः अन्तर्मुख जनानन्द फलदाय नमो नमः परिव्रताङ्गनाभीष्ट फलदायै नमो नमः अव्याज करुणापूर पूरितायै नमो नमः निरञ्जन चिदानन्द संयुक्तायै नमो नमः सहस्र सूर्य संयुक्त प्रकाशायै नमोन्नमः रत्नचिन्तामणि गृह मध्यस्थायै नमो नमः हानि वृद्धि गुणाधिक्य रहितायै नमो नमः महापद्माटवी मध्य निवासाय नमो नमः जाग्रत् स्वप्न सुषुक्तीनाम् साक्षी भूत्यै नमो नमः महापापौघ पापानाम् विनाशिन्यै नमो नमः ुष्टभीति महाभीतिभञ्जनायै नमो नमः समस्तदेवदनुज प्रेरकायै नमो नमः समस्त हृदयां भोजनिलयायै नमो नमः अनाहत महापद्मन्दिराय नमो नमः सहस्रार सरोजात वासितायै नमो नमः पुनरावृत्तिरहित पुरस्थायै नमो नमः वाणी गायत्री सावित्री सन्नुतायै नमो नमः नीला रमा भू सम्पूज्य पदाब्जायै नमो नमः लोपामुद्रार्चित श्रीमच्छरणाय नमो नमः सहस्र रति सौन्दर्य शरीराय नमो नमः भावना मात्र सन्तुष्ट हृदयाय नमो नमः नत सम्पूर्ण विज्ञान सिद्धितायै नमो नमः त्रिलोचन कृतोल्लास नमो नमः श्रीसुदाब्धिमणिद्वीपमध्यगायै नमो नमः दक्षाध्वर विनिर्भेद साधनायै नमो नमः श्रीनाथसोदरीभूतशोभितायै नमो नमः चन्द्रशेखर भक्तार्तिभञ्जनायै नमो नमः सर्वोपाधिविनिर्मुक्त चैतन्यायै नमो नमः नाम पारायणाभीष्टपलराय नमोन्नमः सृष्टि स्थिति तिरोधान सङ्कल्पायै नमो नमः श्री षोडशाक्षरी मन्त्र मध्यगायै नमो नमः अनाद्यन्त स्वयं भूत दिव्यमूर्त्यै नमो नमः दहं सपरि मुख्या वियोगायै नमो नमः मातृमण्डल संयुक्त ललितायै नमो नमः भण्ड दैत्य नमो नमः क्रूर नमो नमः दात्रक्षुदसुराधीश सुखराय नमोन्नमः चण्डमुण्ड निशुम्भादि खण्डनायै नमो नमः रक्ताक्षरक्तजिह्वादि शिक्षणायै नमो नमः महिषासुर दुर्विग्रहाय नमो नमः अभ्रकेश महोत्साहकारणायै नमो नमः महेशयुक्त नमो नमः निज भर्तृमुखाम् नमो नमः वृषभ विज्ञान भावनायै नमो नमः जन्म मृत्युजराोग भञ्जनायै नमो नमः विदेहमुक्ति विज्ञान सिद्धिदायै नमो नमः कामक्रोधाधि षड्वर्ग नाशनाय नमो नमः राज नमो नमः सर्ववेदान्त नमो नमः श्रीवीरभक्तविज्ञान निधानायै नमो नमः अशेष दुष्टदनुजसूदनायै नमो नमः साक्षात् श्री दक्षिणामूर्तिमनोज्ञायै नमो नमः हयमेधाग्रसम्पूज्य महिमायै नमो नमः दक्ष प्रजापतिसुता वेषाढ्यायै नमो नमः सुमबाणिक्षुकोदण्ड मण्डितायै नमो नमः नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः महादेवसमायुक्तमहादेव्यै नमो नमः चतुर्विंशतितत्त्वैकस्वरूपायै नमो नमः